ैकोन त्रिंशः सर्गः समीक्ष्य विमलम् व्यमगतविद्युद्बलाहकम् सारसाकुलसङ्घुष्टम् रम्यज्योत्स्नानुलेपनम् समृद्धार्थम् च सुग्रीवम् अत्यर्थं अत्यर्थम् चासताम् मार्गमेकान्तगतमानसम् निवृत्तकार्यम् सिद्धार्थम् प्रमदाभिरतम् सदा प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान् स्वाम् च पत्नीमभिप्रेताम् ताराम् चापि समीप्सिताम् विहरन्तमहोरात्रम् कृतार्थम् विगतज्वरम् क्रीडन्तमिव देवेशम् गन्धर्वाप्सरसाम् गणैः मन्त्रिशून्यस्तकार्यम् च मन्त्रिणामनवेक्षकम् उच्छिन्नराज्य सन्देहम् कामवृत्तमिव स्थितम् निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् प्रसाद्यवाक्यैर्विविधैर्हेतुमद्भिर्मनोरमैः एर वाक्यविद्वाक्यतत्त्वज्ञम् हरीशम् मारुतात्मजः हितम् तथ्यम् च पथ्यम् च सामधर्मार्थनीतिमत् प्रणयप्रीतिसंयुक्तम् विश्वासकृतनिश्चयम् हरीश्वरमुपागम्य हनूमान् वाक्यमब्रवीत् राज्यम् प्राप्तम् यशश्चैव कौलीश्रीरभिवर्धिता मित्राणाम् सङ्ग्रहः शेषस्तद्भवान् कर्तुमर्हति यो हि मित्रेशु कालज्ञः सततम् साधु वर्तते तस्य राज्यम् च कीर्तिश्च प्रतापश्चापि वर्धते यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिपा समान्येतानि सर्वाणि स महदश्रुते तद्भवान् वृत्तसम्पन्नस्थितः पथि निरत्यये मित्रार्थमभिनीतार्थम् यथावत् कर्तुमर्हति सन्त्यज्य सर्वकर्माणि मित्रार्थे यो न वर्तते सम्भ्रमाद्विकृतोत्साहस्वोऽनर्थे नावरुध्यते यो हि कालव्यतीतेषु मित्रकार्येषु वर्तते स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते तदिदम् मित्रकार्यम् नः कालातीतमरिन्दमा क्रियताम् राघवस्यैतद्वैदेह्याः परिमार्गणम् ते निवेदयति कालवित् त्वरमाणोऽपि स वशानुगः कुलस्य हेतुस्फीतस्य दीर्घबन्धुश्च राघवः अप्रमेयप्रभावश्च स्वयम् च प्रतिमो गुणैः तस्य त्वम् कुरु वै कार्यम् पूर्वम् तेन कृतम् तव हरीश्वरकपि श्रेष्ठा नाज्ञापयितुमर्हसि न हि चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर किम् पुनः प्रतिकर्तुस्ते राज्येन च वधेन च शक्तिमानति विक्रान्तो वानरर्षगणेश्वर कर्तुम् दाशरथेः प्रीतिमाज्ञायान् किम् नु सज्जसे वशे दाशरथिः कर्तुम् त्वत्प्रतिज्ञामवेक्षते प्राणत्यागाविशङ्केन कृतम् तेन महत्प्रियम् तस्य मार्गाम वैदेहीम् पृथिव्यामपि चाम्बरे देवदानवगन्धर्वा असुराः समरुद्गणाः न च यक्षाभयम् तस्य कुर्युः किमिव राक्षसाः तदेवम् शक्तियुक्तस्य पूर्वम् प्रतिकृतस्तथा रामस्यार्हसि पिङ्गेश कर्तुम् सर्वात्मना नाधस्तादवनौ नाप्सु गतिर्नोपरिचाम्बरे कस्यचित् सज्जतेऽस्माकम् कपीश्वरतवाज्ञया तदाज्ञापयकः किम् ते कुतो वापि व्यवस्यतु हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतो नघ तस्य तद्वचनम् श्रुत्वा काले साधु निरूपितम् सन्दिदेशातिमतिमान् नीलम् नित्यकृतोद्यमम् दिक्षु सर्वासु सर्वेषाम् सैन्यानामुपसङ्ग्रहे यथा सेना समग्रामे यूथपालाश्च सर्वशः समागच्छन्त्यसङ्गेन सेनाग्र्येण तथा गुरु ये त्वन्तबालाः प्लवगाः शीघ्रगाव्यवसायिनः समानयन्तु ते शीघ्रम् त्वरिताः शासनान् मम स्वयम् चानन्तरम् कार्यम् भवानेवानुपश्यतु त्रिपञ्चरात्रा दूर्ध्वम् यः प्राप्नुयादिह वानरः तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा हरींश्च वृद्धानुपयातु साङ्गदो भवान् ममाज्ञामधिकृत्य निश्चितम् इति व्यवस्थाम् हरिपुङ्गवेश्वरो विधायवेश्म प्रविवेशवीर्यवान् शे श्रीमद्राणे वाक आदि काव्ये किंडे एक सर्ग